अथ त्रिंशम् दशकम् शक्रेण संयति हतोऽपि बलिर्महात्मा शुक्रेण जीवित तनोः क्रतुवर्धितोष्मा विक्रान्तिमान् भयनिलीनसुराम् त्रिलोचीम् शक्रे वशे स तव चक्रमुखादभीतः पुत्रार्तिदर्शनवशाददितिर्विषण्णा तम् प्रपन्ना त्वत्पूजनम् तदुदितम् शिपयो सा द्वादशाहमचर त्वयि भक्तिपूर्णा तस्यावधौ त्वयि निलीनमते रमुष्याश्यामश्चतुर्भुज वपुः स्वयमाविरासीः भवत्तनयो भवेयम् गोप्यम् मदीक्षणमिति प्रलपन्नयासीः त्वम् काश्यपे तपसि सन्निदधत्तदानीम् प्राप्तोऽसि गर्भमदितयेः प्रणुतो विधात्रा सूत च वैष्णव दिव्यरूपम् सा द्वादशी श्रवण पुण्य दिने भवन्तम् तमभिवर्षति पुष्पवर्षैर्हर्षाकुले सुरगणे कृत तुर्य घोषे बध्वाञ्जलिम् जय जयेति नुतः पितृभ्याम् पडुतमं तत्क्षणे तावत् प्रजापति मुखैरुपनीयमौञ्जी दण्डाजिनाक्षवलयादिभिरर्च्यमानः दे दीप्यमानव पुरीश कृताग्नि प्रास्थिता बलिगृहम् प्रकृताश्वमेधम् गात्रेण भावि महिमोचित गौरवम् प्राग्व वृण्वतेव धरणीम् दण्डम् च दानव जनेष्विवसन् निधातुम् ताम् नर्मदोत्तर तटे हयमेधशाला मासे दुषि शुक्रमुखैश्य शङ्के आनीतमाशु भृगुभिर्मः भक्त्या समेत्य सुकृती परिषिच्य पादौ ततोऽयमन्वधृत मूर्धनि तीर्थतीर्थम् प्रह्लाद वंशजतया क्रतुभिर्द्विजेषु विश्वासतोनु तदिदम् दितिजोऽपि लेभे यत्ते पदाम्बुगिरिशस्य शिरोभिलाल्यम् स त्वम् विभो गुरुपुरालय पालयेथाः इति त्रिंशम्